मुद्गलपुराणम् खण्डम् फोर् गजाननचरितम् अध्यायम् त्रि प्रतिपादादिव्रतवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच तदोगणपतिर्दक्ष ययौ सर्वतिथीप्रति उवाच वृणुदप्राज्ञा वरं यम् मनसीप्सिदं श्रुत्वा गणपतेर्वाक्यं प्रणम्य गणनायकं पूजयित्वा च तं स्तुत्वा जगदुस्थितयः पराः प्रदिपादाद्या ऊचुः यदि विघ्नेश्वरस्वामिन्वरदोऽसि गजानन किं कर्तव्यं दया अस्माभिर्वदसाम्प्रतं स्वस्व्यापारजं देवं सामर्थ्यं देहि चाद्भुतं भक्तिं त्वदीयपादाब्जे सर्वं मान्यं त्वया प्रभो तासां वचनमाकर्ण्यजगादगणनायकः ताशृणुत्वं प्रजानाथ सर्वेषां हितकारकम् गणेश उवाच मदीया भक्तिरत्यन्तं भविष्यदिनसंशयः भवतीनां महाभागास्तिधयः पुण्यभाकिकाः मत्कलांश समुद्भूता देवास्तान् प्रीणयन्तु वै भिर्युदा देवा नराणां प्रीदिदास्तु सदा वह्निं प्रतिपदि पूजयिष्यन्ति ये नराः हृदद्रव्यैश्च हुत्वादं दुग्धाहाराव्रते उपोषणं करिष्यन्ति तैश्च देवाः सहेश्वराः तोषितास्ते सदा तेभ्यो दास्यन्ति मनसीप्सितम् ते मृदाः सङ्गमिष्यन्त्यग्निलोके भोगकारकाः अग्नितुल्यप्रकाशेन विमानेन विहाय सा चरिष्यन्ति न सन्तेह प्रतिपद्व्रतकारकाः गमिष्यन्ति मदात्मनि द्वितीयायां नरो यस्तु पूजयेदश्विनौ शुभौ पत्राहारसमायोक्तो रूपवाञ्जायते किल इह भुक्त्वा किलान् भोगानन्दे तल्लोकमाप्नुयाद द्वितीया व्रतकारी स देवमान्यो भविष्यति ब्रह्मार्पणस्वभावेन द्वितीया व्रतमाचरेत स स्वानन्दे मदीये वै लीनश्चैव भविष्यति तृतीयायां महाशाक्तिं पूजयेद्भक्तिसंयुधः सर्वै सौभाग्यदैर्द्रव्यायैर्लवणाहारवर्जितः सशक्रिलोकगो भूत्वा भोगयुक्तो भविष्यति ब्रह्मार्पणतया सोऽपि मल्लोके चागमिष्यति पञ्चम्यां नागमुख्यांश्च दुग्धेन स्नापयेन्नरः पूजयेत्तान् प्रयत्नेन निरम्लाहारकारकः सनाकलोक गो भूवभोगयुक्त निष्कामेन मदीये वै लोके आगमिष्य ष्ट्याकलाहार पूजये भक्ति संयुक् स्कंदलोके महाभोग सोपरायण निष्कामभावयुक्तश्चेत् स्वानन्ते गमिष्यति शुक्लगत्याक्रमेणैव सर्वभावनियन्त्रितः सप्तम्यामर्चयेत् सूर्यमुपोषणपरायणः स प्रचरेद्भोगसंयुतः निष्कामव्रतकारी चेन्महालयसमुद्धिते स्वानन्दे मे सदेहो वै ब्रह्मभूतो भविष्यति अष्टम्यां मातृकानां यः पूचको भावसंयुधः बिल्वाकारसमायुक्तो मातृका लोकको भवेद मदर्पणस्वभावेन सदा व्रतपरायण अष्टम सोल्लोक गच्छेक्रम विन नवम्यादुर्गाया पूजनम योगते तल्लोकमुयाद निजलोके गति शुक्लगत्या महाभागो ब्रह्मभूदो न संशयः दशम्यां व्रतसंस्थो यो दधिभक्षणसंयुधः दिशां वैपूजकस्तत्प्रियो भवेद इह भुक्त्वाखिलाद्भोगानन्दे तल्लोकमाप्नुयाद निष्कामव्रतभावेन भ्रमभूतो भविष्यति एकादश्यां नरो भक्षे द्वह्नि पक्वविवर्जितं धनपं पूजये चैव भक्तियुक्तेन चेतसा स वैतस्य वसे लोकेनाभोगकरः सदा ब्रह्मार्पणतया तद्वद्व्रतं कृत्वा सुखी भवेद् विष्णुं सम्पूजयेद्यो वै कृतभोजनः कृतभो जनः सविकुण्ठे वसे नित्यं नानाभोगपरायणः ब्रह्मार्पणविधानेन व्रतं कुर्याद्यदा नरः महालये मदीये लोके ब्रह्ममयो भवेत् धर्मं त्रयोदशी संस्तं पूजयेत् क्षीरभो जनः स भूत्वा भुञ्जीत विविधं वी सुखं ब्रह्मार्पणतया येन साधिता चेत् त्रयोदशी स स्वानन्दे समागम्य ब्रह्मभूतो भविष्यति चतुर्दश्यां शिवं यश्च पूजयेद्भक्तिसंयुधः उपोषणसमायुक्तो गोधूमान्येन पारणं करिष्यति च कैलासे वासस्तस्य भविष्यति निष्कामश्चेत्तदन्ते समल्लोके मन्मयो भवेद् पूर्णिमायां देवगणान् देवांश्चद्रमसं तथा पूजयेद्भक्तिभावेन चन्द्रलोकं स आप्नुयात् इह भुक्त्वा किलान् भोगानन्दे देवान् गमिष्यति निष्कामनो मदीये स ब्रह्ममयो भवेद उपोषणसमायुक्तोऽर्घ्यदानं ह्यः करिष्यति चन्द्राय निशि भुग्वापि सर्वदेवपरायणः सर्वदेवमयी रम्या पूर्णिमा परिकीर्तिता चान्द्री चैव अमायां तर्पयेद्यो वै पितॄन् पितृपरायणः उपोषणं वा कुर्वीद स सर्वार्थमवाप्नुयाद अन्ते पितृमये लोके वसतिस्तस्य सम्भवेत् आगमिष्यदि निष्कामश्चेत् स्वानन्ते तल्लये कृष्णा शुक्ला सदा पूज्या स्थितयो एवं भावयुते नैव स सर्वार्थमवाप्नुयाद मत्प्रिया स्थिथयः सर्वा भविष्यधनसंशयः मत्कलांशयुतैर्दे वै संयुक्ताः प्रभवेद वै येन कुर्वन्ति तेषां सर्वं निरर्थकम् भवदीयव्रते संस्तं भविष्यति न संशयः अधश्चतुर्थी संयुक्ता सदा भवदमानदाः तिथयः कालमानेन सर्वपूज्या भविष्यथ यवमुक्त्वान्तर्दधेत्सौ गणेशो गणवल्लभः तथाजादं जातं प्रजानाथ तिधियुक्तव्रतं सदा चतुर्थी चं च माहात्म्यं यद्विशेषतः शृणुयाद्यः पठेद्वापि स सर्वार्थमवाप्नुयाद ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिदे प्रतिपादादिव्रतवर्णनं नाम तृतीयोऽध्यायः ओम्